सप्तविंशोऽध्यायः वैशंपायन उवाच ततो वनगताः पार्था सायाह्ने सह कृष्णया उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः प्रिया च दर्शनीया च पतिव्रता अथ कृष्णा धर्मराजमिदं वचनमब्रवीत् द्रौपद्युवाच न नूनन्तस्य पापस्य दुःखमस्मासु किञ्चन विद्यतेधार्तराष्ट्रस्य दृशंसस्य दुरात्मनः यस्त्वाम् राजन्मया सार्धमजिनैः प्रतिवासितम् वनम् प्रस्थाप्य दुष्टात्मानान्वतप्यत दुर्मतिः आयसंहृदयन्नूनम् तस्य दुष्कृतकर्मणः यस्त्वाम् धर्मपरम् श्रेष्ठम् रुक्षाण्यश्रावयत्तदा सुखोचितमदुःखार्हम् दुरात्मा स सुहृद्गणः ईदृशम् मोदते पापपूरुषः चतुर्णामेव पापानामस्रन्न पतितम् तदा त्वयि भारतनिष्क्रान्तेव नायाजिन वाससि दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः चोग्रस्य राजन् च इतरेषाम् तु सर्वेषाम् कुरूणाम् कुरु सत्तम दुःखेनाभिपरीतानाम् नेत्रेभ्यः प्रापतज्जलम् इदम् दृष्ट्वा यच्छासीत् पुरातनम् शोचामि महाराज दुःखानर्हम् सुखोचितम्